नि परासुव यद्भद्रन्त आशु आज विद्या संस्कृत संभाषण शिविर के अंतर्गत हम जब व्याकरण प्रवेश करते हैं उसमें पाणनी के मूल सूत्र अष्टाध्यायी स्मरण अवश्य होने चाहिए तो इसका स्मरणार्थ यह प्रयास चल रहा है कि हम शिविर से शिविर कैसे स्मरण करेंगे तो आज आय दि है पहले पठित सूत्रो की आवृत्ति करङ्गात् ने सूत्र केगे प्रथम सूत्रो की आवृत्ति मिलकर करेंगे करङ्ग para nidhi nidhi leke nidhi nidhi nidhi meri dam meri dam devi dam devi dam nidhi meri dam nidhi meri dam halo nantaraa sanyogaa halo nandaraa sanyogaa Lord of God aló मुखनाशिका वचनानुनासिका फलो नन्दलाः संयोगः हलो नन्दलाः संयोगः मुखनासिता वचनो नासिकः श्री देवीना हलो नन्दना संयोगः मुखनागिता वचनोऽनुनासिकः दीदी देवीनां हलो संयोगः मुखनागिता वचनो अनुनासिका वचनोऽनासिकः किं रति च दीबिरेणीनाम् अनोऽनन्तरा संयोगः मुखनासिका वचनोऽनुनासिकः किं नीमेका अनन्तरा संयोगा मुकुनासिका वचनोऽनुनासिकः सूर्यास्य प्रयत्नं स्वर्ण ल्यास्य तुल्यास्य तुल्यास्याल्यास्य तुल्यास्यायत्नं प्रयत्नं प्रायत्नं तुल्यास्य प्रयत्नम् यासदायणम् सूर्यासयनं स्वर्णम् स्वर्णम् शवरणं स्वर्णम् तु्यास प्रयत्नं स्वर्णम् स्वयासकायनं सवर्णम् स्वयाशब्दायणं सवर्णम् नासिका वचनो नासिकः तुस्य प्रयत्नं सवर्णम् नृपनासिका वचनोऽनुनासिकः तुल्यासपर्यटनम् कवर्णम् नृपनासिका वचनोऽनुनासिकः तुल्यास पर्यटनं कवर्णम् मा जलौ न जलौ ना झलौ मा जलौ तुल्यास्य प्रयत्नं सवर्णम् ना झलौ प्रयत्नं नाकनासिका वचनोन् नासिका तुल्यास्य प्रयत्नं सवर्णम् ना झलौ नासिका वचनो नासिका ल्यास प्रयत्नं च वर्णम् ना मुखनासिका वचनोऽनासिकः तुल्यास प्रयत्नं च वर्णम् गोनन्दलाः संयोगः मुखनासिका वचनोऽनुनासिकः तुल्यासप्रनं सवर्णं ना झलौ नानन्दरा संयोगः मुखनासिका वचनानुनासिका तुल्यास प्रयत्नं च वरमि नाभी देविताम् अयो नन्दराः संयोगः मुखनासिका वचनोऽनुनासिकः प्रयत्नं सवर्णम् जलाऊ दी तेरे तन हर ध्यायः प्रथमः कालादै अरे गुणः निको गुणो वृद्धि न धातिलोप आविरादिके इन्द्रीधिवेताम् हलो नन्तराः संयोगः मुखनासितावति मोन्नासिकः तुल्यास्य सवर्णं, ना नाञरौ ध्यायः वृद्धिराने अरे गुणः इतो गुणवृद्धि दयातिलोपहारदातुके किं चिनिवेलितान् अलोरन् ये <laughs> निपा हल सोमाे निपात एता जनानि अलसो मा निपात एका जना ओदुदे वचनं प्रति ीताम् हरो नन्तराः संयोगः मुखनासिकावचनो नासिका कुल्यास्य प्रयत्नम् सवर्णम् नाधरौ ईदूद्विवचनम् करणीयम् अध सोमात् शेम् निपात एका जनान् ओ tadnyaasya pratyinam charanam naachalo irude dvaranam kadya निपात एकाजना जनान् प्रथमाध्यायः शब्दा लो अहं no. ओ संबुद्धौ साफल्यस्येतावनाशे सम्बुद्धौद्धौ साफल्यस्येतावनाशे र्शे सा ओ संबुद्धौ साकल्यस्येतामनार्शे येतां माध्यं संबुद्धं च मयस्य चेतना ऋषिं भृयाहुं संबुद्धं काब्यस्य तावनाशे भृयाहुं गो संबुद्धौ संबुद्धौ संबुद्धौ संबुद्धौ संबुद्धौ संबुद्धौ क्षातल्यस्य तावनाशे तावनाशे संबुद्धौ शाक्यस्य तवनाशे सो संबुद्धौ शाक्यस्य तवनाशे कुन्याहु कुन्याहु संबुद्धौ शाक्यस्य तवनाशे कुन्याहु संबुद्धौ शाक्यस्य तवनाशे कुन्याहु कुन्याहु ee dutau daptam yathe ee dutau daptam yathe ee dutau daptam yathe ee dutau ee dutau ee dutau daptam yathe saptam yathe saptam yathe saptam yathe saptam yathe सप्तम्या सप्तम्यौ च सप्तम्यू च सप्तम्यूच्या सप्तम्यू तौ च सप्तम्य ृतौ च सप्तम्यथे सप्तम् सम्बुद्धौ साकल्यश्चेतामनाशे समयौ ईदृतौ च सप्तम्यथे राधा सम्बुद्धौ साकल्यश्चेतामनाशे नासेतौ च सप्तम्यर्थे दाधाध्वता सम्बुद्धौ सा Oh, God, God, God. आद्यन्तव जिन पंचर को स्मरण हो गया होगा पीछे पीछे पंचक को लेकर इसके पीछे पंचक इसके पीछे पंचक फिर तीसरा पंचक प्रथम पंजक से यहां तक एक आवृत्ति करनी है ताकि ये विशेष इस बिजली के ही आवृत्तियों से ये पूरा पूरा रक्षक होता है पूरी स्मृति में हो जाता है मन लगाने की बात है तो फिर से हम आवृत्ति जलाएंगे और पूया ौल्यस्येता सम्बुद्धौ शाकल्यस्येतामनाशेन् उयम् ईदूतौ च सप्तम्यते दाधाभदा आजन्तवदेकस्मिन् चेद्विवचनम् प्रवीहम् अद सोमान् शे निपात एका जनान् ओ सम्बुद्धौ साकल्यस्येता पुय ऊदुतौ च सप्तम्यर्थे दाढा भदा आजन्तपदेकस्मिन् ईदु चेद्विवचनं प्रतीयम् अद सोमा ृद्धौ चाबल्यस्यूतौ चीदी वेदीताम् हलो नन्दलाः संयोगः मुखनासिका वचनोन्नासिकः तुल्यास्य प्रयत्नम् सवर्णम् नाझलौ ईदूते द्विवचनम् करणीयम् अदशोमात् शेम् निपात एकाजनाम् ओ ओ निपात एकाजनाम् ओ सम्बुद्धौ साकल्यस्येतामुना शेम् उञ ऊदूतौ च सप्तम्यर्थे दाधावदा आदन्तवदे तस्मिन् प्रेताम् अरो ुणः एको गुणम् वृद्धिः न धातुरोपा धातुके किम् वीधीवेलीता हलो नन्तराः संयोगः मुखनासिका वचनोऽनुनासिकः तुल्यास्य प्रयत्नम् समर्णम् नाझौ ईदूतेर्द्विवचनम् प्रगृहम् अद सोमात् शेन् निपात एका जनान् ओ सम्बुद्धौ शाकल्यस्येतामनाशे ऊरूतौ च सप्तम्यर्थे राधा आद्यन्तवदेतस्मिन् ja yeah.